ब्रह्माण्डपुराणं मध्यभागम् अध्यायं ट्वेन्टि एय्ट् वसिष्ठ उवाच स्वपन्तमेत्यराजानं सुदमागधवन्दिनः प्रबोधयितुमव्यग्रा जगुरुच्चैर्निषाद्यये वीणा वेणुरवोन्मिश्रकलतालतथानुगम् समस्तश्रुति सुश्राव्यप्रशस्तमधुरस्वरं स्निग्धकण्ठास् सुविस्पष्टमूर्छनाग्रामसूचितं जगुर्गेयं मनोहारितारमन्त्रलयान्वितम् ऊचुश्च तं राजानं सुदमागताः स्वपन्दं बुबोधयिष वशनेः पश्यायमस्तमभ्येदि राजेन्द्रेन्दुः पराजिदः विवर्धमानया नूनं तव वक्त्राम्बुजश्रिया द्रष्टुं त्वदाननां भोजं समुत्सुक इवाधुना तमांसी भिंदना संाप्युद विभो राजखिलांशु वंशमौलिशिखाणे निद्रयालम महाबुद्धि प्रदी बुद्धियस्व सांप्रद इति तेषां वजशृण्वन्नबुध्यद महीपतिः क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः विनिद्राक्षसमुद्धाय कर्म नैत्यकमादराद चकारावहितः सम्यग् जयाधिकमशेषतः देवतामभिवन्द्येष्ठां गाम् दिव्यस्रग्गन्धभूषणः कृत्वा दूर्वाञ्चनादर्शमङ्गल्यालम्बनानि च दत्त्वा दानानि चार्थिभ्यो नत्वा गोब्रह्मणानपि निष्क्रम्य च पुरा तस्मादुपतस्ते च भास्करम् तावदभ्याययुः सर्वं मन्त्रिसामन्तनायकाः रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमं ततः सत्तैः परिवृतः समुपेत्य तपोनिधिं ननाम पादयोस्तस्य किरीडे नार्कवर्चस आशीर्भिरभिनन्द्याधराजानं मुनिपुङ्गवः प्रश्रयावनदं साम्नात्तमोवाचास्यतामिति तमासीनं नरपदिं महर्षिः प्रीतमानसः उवाचरचनीभ्युष्ठा सुखेना तव किं नृप अस्माकमेव राजेन्द्र वने वन्येन जीवतां शक्यं मृगः येनकेनापि येन केनापि वर्तितुम् अरण्ये नागराणां तु स्थितिरत्यन्तदुःसहा अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करं वनवासपरिक्लेशं भवान्यत्सानुगो सकृत आप्तस्तुभवतो नूनं सा गौरवसमुन्नतिः युद्युक्तस्तेन मुनिना स राजाप्रीतिपूर्वकं प्रहसन्निव वचनं प्रत्यभाषत ब्रह्मन् किमनया ह्युक्रिया दृष्ठस्ते यादृशो महान् अस्माभिमहिमायेन विस्मितं सकलं भवत प्रभाव जगत् भवत्प्रभावसञ्चातविभवा कथचेतसः इतो न गन्तुमिच्छन्ति सैनिकामे महामुने त्वादृशानां जगन्दिह प्रभावैस्तपसां विभो ध्रियन्दे सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसं नैव चित्रं तव विभो शक्रोदितपसा भवान् ध्रुवं कर्तुं हि लोकानामवस्थात्रितयं क्रमाद सुदृष्टा ते तपःसिद्धिर्महदीलोकपूजिता गमिष्यामि पुरीं ब्रह्मन्ननुजानातु माम् भवान् वसिष्ठ उवाच युत्युक्तस्ते न कार्तवीर्येण सादरं संभावयित्वा नितरां तथेदिप्रत्यभाषत मुनिना समनुज्ञादो विनिष्क्रम्य तदाश्रमाद सैन्यैः परिवृतः सर्वैः सम्प्रतस्थे पुरीं प्रति सगच्च संितायामसमसा पथि पार्थिव अहो तपस सिद्धिर्लोक विस्मदाइनी यया लेदृशिधेसर्वकामुखा वरा किराज्योगप्यनपया गोरत्नभूतायधियं धेनुर्मुनिवरे स्थिता अनयोत्पादिता नूनं सम्पत्स्वर्गसदामपि ऋद्धमैन्द्रमपि व्यक्तं पदं त्रैलोक्यपूजितम् अस्या धेनोरह मन्ये कलां नार्हति षोडशीम् इत्येवं चिन्तयानं तं पश्चादभ्येत्य पार्थिवं चन्द्रगुप्तोऽ्रवीन्मन्त्री कृताञ्जलिपुटस्तदा किमर्थं राजशार्दूल पुरीं प्रतिगमिष्यसि रक्षितेन च राज्येन पुर्या वा किं फलं तव गोरत्नभूता नृपतेर्यावर्धेनुर्नचालये तवप्रभो। नार्थमपि ते राज्यं शून्यं तव प्रभो अन्यच्च दृष्टमाश्चर्यं मया राजन्शृणुष्व तद् भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः प्रासादा प्रासादाविधाकाराधनं चादृष्टसंक्षयं धेनो तस्या क्षणेनैव विलीनं पश्यतो मम तत्तपोवनमेवासीदिदानीं दिदानीं राजसत्तमा येवं प्रभावासायस्य तस्य किं दुर्लभं भवेत। तस्माद्रत्नार्हसत्वेन स्वीकर्तव्या हि गौस्त्वया यदि तेऽनुमदं कृत्यमाख्येयमनुजीविभिः राजोवाच एवमेवाहमप्येनां न जानामीत्य साम्प्रतं ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः एवं ब्रुवन्दं राजानमिदमाह पुरोहितः गर्गो मतिमदां श्रेष्ठो गर्हयन्निव भूपते ब्रह्मस्वं नापहर्तव्यमापद्यपि कथञ्चन ब्रह्मस्वसदृशं लोके दुर्जरं नेहविद्यते विषं हन्त्युपयोक्तारं लक्ष्यभूतं तुहैहय कुलं समूलं दहति ब्रह्मस्वारणिपावकः अनिवार्यमिदं लोके ब्रह्मस्वं दुर्जरं विषम् पुत्र पुत्रपौत्रान्तफलदम् विपाककडुपार्थिव ऐश्वर्यमूढं हि मनःप्रभो मम सदात्मनां किन्नामासन्नकुरुदे नेत्रासद्विप्रलोभितं वेदान्यस्त्वामृते कोण्यो विना दानानृपोत्तम आदानं चिन्दयानोहि हि ब्राह्मणेष्वभिवाञ्चति यीदृशस्त्वमहाबाहो कर्मसज्जननिन्दितं मा कृतद्धि लोकेषु यशो हानिकरं तव वंशे महदिजातस्त्वं वदान्यानां प्रहीभुजाम् यशांसि कर्मणानेन सम्प्रदं मा व्यनीवशः अहो नु जीविन किञ्चिद्भर्तारं व्यसनार्णवे तत्प्रसादसमुन्नद्धा मज्जयं त्यनयोन्मुखाः श्रिया विचेतनः तन्मतानुप्रवृत्तिश्च राजा सद्यो मुनयो विषीदति अज्ञातमुनयो मन्त्री राजानमनयाम्बुधौ आत्मना सह दुर्बुद्धिर्लोहनौरिव मज्जयेद् तस्मात् त्वं मूठस्य नयवर्त्मनि मदमस्य सुदुर्बुद्धेर् एवं हि वदतस्तस्य स्वामि श्रेयस्करं वचः आक्षिप्य मन्त्री राजानमिदं भूयो ह्यभाषद ब्राह्मणोऽयं स्वजातीयहिदमेव समीक्षते राजकार्या मकान्दकारे नक्य राज्य वेद्याम विना वै भोजनादे कार्यो न विंद ब्राणो नवम्त वंदनीयच निश प्रदि सङ्ग्राहणीयश्च नाधिकं साधितं क्वचिद् तस्मात् स्वीकृत्य धेनुं प्रयाहि स्वपुरं नृप नो चेद्राज्यं परित्यज्य गच्छस्वतपसेवनं क्षमावत्वं ब्राह्मणानां दण्डः पार्थिव प्रसह्य हरणे वापि नाधर्मस्ते भविष्यति प्रसह्यहरणे दोषं यदि सम्पश्यसे नृप दत्वा मूल्यं कवास्वाद्य मृषेऽर्थनुप्रगृह्यतां स्वीकर्तव्या हि साधेनुस्त्वया रत्नभागयतः तपोधनानां हि कुतो रत्नसङ्ग्रहणादरः तपोधनबलशान्तः प्रीतिमान् स नृपत्वयि तस्मात् ते सर्वथा धेनुं याचितः सम्प्रदास्यति यदन्यदभिवाञ्छितं सङ्गृह्य वित्तं विपुलं धेनुं तां प्रदिदास्यति अनुपेक्ष्यं महद्रत्नं राज्ञा वैभूतिमिच्छदा इति मे वर्तते बुद्धिः कथं वा मन्यते भवान् राजोवाच गत्वा त्वमेव विशेषतः दत्वा चाभीप्सितं तस्मै तां गामानयमन्त्रिक वसिष्ठ उवाच एवमुक्तस्तदो राज्ञा समन्त्री विधिचोदितः निवृत्य प्रययौ शीघ्रं जमदग्ने गतेतु नृपतौ तस्मिन्नकृतव्रणसंयुधः समिदानयनार्थाय रामोऽपि प्रयौवनं तदः समन्त्रीसबलः समासाद्य तदाश्रमं प्रणम्य मुनिशार्दूलमिदं वचनमब्रवीद चन्द्रगुप्त उवाच ब्रह्मनृपदिनाज्ञप्तं राजादु भुवि रत्नभाक रत्नभूता भुवि दोग्ध्रीष्वनुतमा तस्माद्रत्नं सुवर्णं वा मूल्यमुक्त्वा यथोचितम् आदाय गोरत्नभूदां धेनुं मे दातुमर्हसि जमदग्निरुवाच होमधेनुरियं मह्यं न दादव्याहि कस्यचिद् राजा वदान्यः कथं ब्रह्मस्वमभिवाञ्चति मन्त्रि रत्नभाक्त्वं न ते प्रदिकाङ्क्षति गवायुतेन तस्मात् तस्मै तां धातुमर्हसि जमदग्निरुवाच क्रयविक्रयह्योर्नासं कर्ता जादुकथञ्चन हविर्धानीं च वै तस्मान्नोत्सहे धादुमञ्चस मन्त्र्युवाच राजेनाधवा ब्रम सकना देंहिधेनु मीमा तत्ते भविष्य जमदग्निवाच जीवन्नाक तुदास्यामि वासवस्यापि दुर्मदे गुरुनायाजिद कि वचसा नृपते मन्त्र्युवाच तोमे वस्वेचया राज्ने देहि धेनुं सुहृतया यथा बलेन नितायां तस्यां त्वं किं करिष्यसि जमदग्निरुवाच दादा द्विजानां नृपदे स विप्रोहं विप्रोहम कि स्वेच्छा वित वसी उवाचित्र संक्रुद्धसम्री पापचेतन प्रसह्य इदिश्री मुस्तनी महापुराणे वायु प्रोक् मध्यभागे तृतीय उपोदेषा विशतित ओं